द्वितीयाष्टकप्रारम्भः ओिरसो वै सत्रमासत तेषाम् प्रश्चर्घर्मथुकासीत् सद्विषेनाजीवत् ते ब्रुवन् कस्मैनुसत्रमास्महे ये स्यावोषधेऽर्णजनगामगिते ते दिवो वृष्टिमसजन्त यावन्तस्तोकावापद्यन्त तावती रोषधयो जायन्त ताजाताः पितरोविषेणालिम्पन् तासा जग्धारिप्यन्ते हे ब्रुवन् कैदमित्थमखरिते वयम् भागधेयमिच्छमानामिति पितरो ब्रुवन् किम्ब भा गथेयमिति अग्निहोऽत्र केवनाप्यस्त्युत्यब्रुवन् भागधेयम् प्रायच्छन् यद्धृत्वा निमाष्टे ततो एक ओषधेरस्वदयन् यज एवम् वेद स्वदन्त्यस्मावोषधयः एव सजन् इदम् नाहव्यम् प्रदापयति सोऽद्वरम् वृणे दशमारात्रे जातन्नदोहन् आसङ्गवम् मात्रा सहचराणीति तस्माद्वत्सञ्जातन्दशरा प्रेर्णदहन्ते आसङ्गमम् मात्रा सहचरति वारे पदग्स्य तस्माद्वत्सगम् सगम् द्रष्टभयकम् रुद्रोघातुकः अतिसन्धानज्ञमसृजत तम् प्रजान्नवसृज्यन्त तम भाग उपास्त प्रजाभिरपा तम वरुधमानान्वयेत् तम वरुधन्नाशक्नात् सोदप्यता सोऽनुपारमतापि वै स प्रजापतिरिति स राजा दुदमृष्टा अर्घृतमभवत् तस्माद्यश्च दक्षिणदक्षेशा तस्मात्तराटे केशा न सन्ति तदग्नौ प्रागृह्णात् तद्व्यचिकित्सते तद्विचिकित्सायै जन्मा य एवम् विद्वानपि चिकित्सति वशीय एव चेतयते तम् वागभ्यपदजुगुभीति सोऽ कस्त्वमसीति श्रैव देवागित्यब्रवीत् सोऽजुहोत्साहेति तत्स्वाहाकारस्य जन्म य एव ग्यस्वाहाकारस्य जन्म वेद करोति स्वाहाकारेण वीर्यम् करो यस्यैवम् विदुषस्वाहाकारेण जिह्वति भोगादैवास्य हुतम् भवति तस्या आहुते पुरुषमसजत द्वितीयमजुहोत् सोऽश्वमसजत द्वितीयमजुहोत् तरकामसृजता त्रमजुहोद सोऽपिमसृजता पञ्चममजुहोद सोऽजामसृजत सोऽभेत् आहुते सर्वैमाप्नोतीति स प्रजापतिम् पुनः प्राविशत् तम् प्रजापतिरब्रवीत् जायस्वेति सोऽभागेयमभिजनिष्य इति तुभ्यमेव भागधेयमभ्यजायत यदग्निहोत्रम् तस्मादग्निहोत्रमुच्यते लब्धूयमानवादित्यो अब्रवीत् माहोषेः उभयोर्वेनाभेत इति सोऽग्निरब्रवीत् प्रसन्नो होष्यन्तेति सायमेव तुभ्यम् जुहवन् प्रातर्मह्यमित्यब्रवीर तस्मादग्नये सायगम् भूयते सूर्याय प्रातः आग्ने वै रात्रिः ऐन्द्रमः यदनुचिते सूर्ये प्रातर्जुभुयात् उभयमेवाग्नेयज्ञः स्यात् उदिरे सूर्ये प्रातर्जुहोति अर्थाग्नेसाधकम् भोजत् सूर्याय प्रातः रात्रिम् वा न प्रजाः प्रजायन्ते अह्ना प्रतिष्ठन्ते यत्सायम् जहोति वैवतेन जायते उजिते सूर्ये प्रादर्जुहोति तद्येवतेन तिष्ठति प्रजापचनकामयतप्रजादेति स एतदग्निहोत्रम् मिथुनमपश्यते तदुदेशौर्ये जुहोत यजुषान्यते तूष्णे मन्यते ततो वैष प्राजायत यस्यैवम् विजुष उजिते सूर्ये अग्निहोत्रम् जुह्वते तदैव जायते अथो यथादिवाहा प्रजानन्येति तादृगे वदते अथवा खल्बाहुः यस्य वेदृपण्यो गृहे वसदः यस्तयोरन्यकम् राधयत्यन्यन्न उभौ वा वसदा वृक्षतेति अग्निम् वा रिक्तः सायम् प्रविशति तस्मादग्निर्दौरान्नक्तम् दृशे उभे हिते तस्माद्भौमदेवाग्ने दुरुषे यदग्ने सायञ्जभुयात् आसौर्याय पृच्छेत यत्सौर्याय प्रादर्यभुयात् आग्नेयश्चेत देवताभ्यः समनन्दत्यात् अग्निज्योतिर्ज्योतिःसौर्यस्वाहेत्येव साधम् होतव्यम् सौर्योज्योतिर्ज्योतिरग्निस्वाहेति प्रातः तथो वाभ्यागम् सायकम् भूयते वाभ्याम् प्रातः देवताभ्यः समदम् दधाति अग्निर्ज्यो चरित्याः अग्निर्वैरे तोधाः प्रजाद्योचरित्याः प्रजा एवास्मै प्रजनयते सूर्यो ज्योतिरित्याः प्रजा एव प्रातो दधाति योजरग्निस्वाहेत्याह प्रजा एव प्रजाता अस्याम् प्रतिष्ठापयति तूष्णेमुत्तराहुतिम् जुहोति विचनत्वाय प्रजाः सूर्ये प्रादर्जुभुयात् यथा प्रदृताय शून्यायापसथाया हार्यगम् हरन्ति ताजगेव तद् क्वाद्भवतीत्याहो यत्स न वेद यस्मैतद्धरन्ति तदेव सम्प्रति अथोकथा प्रार्थमोषतम् परिवेवेस्ति तादृशे वद्रो एषः यदग्निः पत्नेः स्थाले यन्मध्ये श्रुद्राय पत्नीमपि दध्यात् प्रमायिका स्यात् उदेशोऽङ्गाराञ्लोक्याश्रयति पत्नी गोपी चाय ण्यन्ताम् करोति तथा पत्न्यप्रमायिका भवति धर्मो वा एषो शानन्दः अहरः प्रबध्यते यदग्निहोत्तम् प्रतिषेजेत् पशुकामस्य शान्द्रशव्यम् न प्रतिषिञ्चेत् ब्रह्मवत्प्रसकामस्य समिद्धमिवहिर्ब्रह्मवर्चसम् अथो खलु प्रतिषिध्यमेव यत्प्रतिषिन्त्यशव्यम् यद्युहोते तद्ब्रह्मवर्तसे उभयमेवाकः प्रच्युतम् वा एतदस्माल्लोकात् दे, अगतम् देव लोकम् यच्छतकम् हविरन विधारितम् अभिद्योतयति अभ्येवैनद्धारयति दे, अथो देवत्रैवैनद्गमयति दे, पर्यज्ञि करोति दे, रक्षसामपहत्यै दृःपर्यज्ञिकरोति प्रया वृद्धिरिज्ञः अथो मेभ्यत्वाज यत्प्राचीनमुद्वासयेत् यजमानकम् सुतार्पयेत् तद्दक्षिणा विजदेव त्यक् स्यात् यत्प्रत्यज पत्नेकम् सुतार्पयेत् उदेशेनमुद्वासयति एषा वेदेव मनुष्यानाकम् शान्तादिक कामेवेन तमोद्वासयति शान्त्यै पत्मकरोति यज्ञः सन्तत्यै निष्पतिस्नादि चतुर्नयति चतुष्पादः पशवः पशूनेवावरन्धे सर्वान् पोन्नानुन्नयति सर्वैः पुण्यादाब्धाः अनोच्चमुन्नयति प्रजाया नोचेनत्वायाम् अनोच्चेवास्य प्रजाध्वका भवति सम्पृशतिर्व्यावृत्ते नाहोष्यन्नुपसादयेत् रहोष्यन्नुपसादयेत् यथा अन्यस्मा उपनिधाय अन्यस्मै प्रयच्छति तादृशेव तत् आस्मै वृश्चेत यदेव कारिहपत्ये शिश्वति तेन कारिहपत्यम् प्रीणाति अग्निरभिभेत् आहुतयो मार्जेष्यन्तीति स एताकम् समिधमपश्यत् तामाधत्ता ततो वा अग्नावाहुतयोध्रियन्त यदेन समयच्छत् तत्समिधः समित्वम् समिधमादधाति समेवेन यच्छति आहुतीनाम् धृत्यै अथो अग्निहोत्रमेवे ध्ववत्करोति आहुतीनाम् प्रतिष्ठित्यै ब्रह्मवादिना वदन्ति यदेकाकम् समिषमाधा यद्वे आहुते जुहोति असगस्यागम् समिषद्वितीयामाहुतिम् जुहोतीति यद्वे समिषावादध्यात् ध्यातव्यमस्मे जनयेत् एकाकम् समिषमाधाय ्यामाहुतिम् जहोति दि उभे एव समित्वजुहोति नास्मैभ्यातव्यञ्जनयति आदे प्रायाम् जहोति समिद्धमिवहि ब्रह्मवर्तसम् अथो यथा दृश्यञ्ज्योतिष्कृत्वा परिवेष्टि तादृगे वदते चतुर्णयते दि दिर्जहोति दि तस्माद्दिपाचतुष्पादमत्ति अथो वादेव चतुष्पथः प्रतिष्ठापयति उत्तरावदे वै देवा आहुदिमजुहवोः अवाचेमसुराः ततो देवा अभवन् परासुराः यङ्कामये तपसीयाञ्च कनीयस्तस्य पूर्वकम् हुत्वा उत्तरम् भूयोजुयात् एषा वा उत्तरावत्याहुदिः तान् देवा, उत्तरा देवा अजुहवोः अतस्तेभवन् यस्यैवम् जुःपदि भवत्येवमयेदपापीजा भूयस्तस्य पूर्वकम् हुत्वा उत्तरङ्कनीजो विभुजात् एषा वाच्याहुदि तामसुराजुहवोः तदस्ते पराभवन् यस्यैवम् जुःपदे परैव भवति कृत्वा प्रसादयत्लामित्वा च अथो व्यावृत्ते गारुहपति अनध्यायिनमेवैनम् करोति अग्निहोत्रस्य वै स्थानरस्ति तैयगच्छेत् यज्ञस्थानमिच्छेत् एष वा अग्निहोत्रस्य स्थानः यत्पूर्वाहुदे ताञ्जदुत्तरणाभिजुगात् यज्ञस्थानमुच्छेत् अधिहायपूर्वामाहुतिञ्जुहोति यज्ञस्थानमेव परिव्रक्ते अथोभ्रादुर्वमेवत्वातिक्रामते अवाचेन कुंसायमुपमार्ष्टे एतगेमदद्दधाते ओर्ध्वम् प्रातः ब्रह्मवादिना वदन्ते चतुर्नयते निर्जुहोदे असक्वद्वे आहुते भवत इति अग्नौ वैश्वानरैरिर्ब्रूयात् एष वा अग्निरुवैवेश्वानरः एब्राह्मणः अज्ञानेव द्वे आहुते जुहोदे निर्जुहोदे निर्निवाराष्टे द्विप्राश्चादे षट्सम्पद्यन्ते षड्वा ऋतवः ऋतोरेव प्रेयादे ब्रह्मवादिना वदन्ति किं देवत्यमग्निहात्रमिति वैश्वरेवमिति ब्रूजात् यज्जुषा जुहोदे निर्निवाष्टे तदौषधीनाम् यद्वितीयम् तत्मिदनाम् यत्प्राश्नादे तद्गर्भाणाम् तस्माद्गर्भा अनश्नन्तो वर्धन्ते यदाचामति तन्मनुष्याणाम् पर्यावृत्यागामते आत्मना कोऽपि च निर्णयेत्य शुद्धेः निष्टपतिस्वकाकृत्ये सप्तविधेनैव प्रेणादि दक्षिणापर्यावर्तते स्वमेव वीर्यमनपर्यावर्तते तस्माद् दक्षिणार्थ आत्मनो वीर्यावर्तरः अथ आदित्यस्यैवापदमनपर्यावर्तते भूत्वा पथविन्ध्ये ब्रह्मवक्षरस्य समिध्यैप्रहरेत् अनज्ञश्चितो प्रहरेत् यज्ञम् विच्छिन्द्यात् तस्मान्नाप्रहत्यम् यज्ञस्य सन्तत्यये अपोजनयते अपृथस्यैव रूपमकः ब्रह्मवादिना वदन्ते अग्निहोत्रप्रायणा यज्ञाः किम् प्रायणमग्निहोत्रमिति वत्सो वा अग्निहोत्रस्य प्रायणम् अग्निहोत्र यज्ञानाम् तस्य पृथिवीसुतः अन्तरिक्षमाग्नेऽर्थम् विधौ विद्धानम् दिव्यापःप्रोक्षणयः ओषतयोपरिः पनस्पतय विद्मः द्विषः परिधरः आदित्योरूपः यजमानः पशुः समुद्रोपभृतः संवत्सरस्वगाकारः तस्मादाहिताग्नेः सर्वमेव तर्विश्वम् दत्तम् भवति यत्सारम् जुहोति रात्रिमेव तेन दक्षिण्याम् कुरुते यत् अहरेव तेन दक्षिण्यम् कुरुते यत्ततो ददाति सा दक्षिणा यावन्तो वे देवाहुतपादन् दे देवा ते पराभवन् प्रगेदज्ञहोत्रम् सर्वस्यैव समपदाय जुहवोः तस्मादाहुः अज्ञहोत्रम् वे देवाग्रहाणाम् निष्कृतिमपश्यन्निति यत्सायम् जुहोति रात्रिया एव तद्भुताज्ञाय विद्यमानस्यापराभावाय यत्रातः अन्धडेव तद्धुताद्याय यजमानस्यापराभावाय यत्ततोऽस्नादि भुजमेव तत् पदो प्रयसाभुजा पशुकामस्य एतद्वा अग्न्यहोत्रम् मिथुनम् यदेवम् वेद प्रजया ज्ञायते इमामेव पूर्वजा दृहे अमोमुत्तरया योना नावेव तद्रेतस्य प्रजनने आज्येन जुजात् तेजस्कामस्य तेजो वा आज्यम् तेजस्वेव भवति पयसा पशुकामस्य एतद्वै पशूनागम् रूपम् रूपेणैवास्मै पशूनवरुन्धे पशुमानेव भवति रथेन्द्रियकामस्य इन्द्रियम् वैतधे इन्द्रियाव्येव भवति ग्रामकामस्य औषधा वे मनुष्याः भागदेवेनैव स्नेतुजातानवरुन्धे ग्राम्ये भवति एज्ञो वा एषः योऽसामा चतुर्न्नयते चतुरक्षरकम् रसन्धरम् तंतर रसन्धरशेषवर्णः उपदेवहरते अन्तरिक्षम् वामदेव्यम् वामदेव्य श्रेषवर्णः निर्ज बृहदेषवर्णः अग्निहोत्रमेव तत्सामन्वत्करोति यो वाग्निहोत्रस्योपसदो वेद उपैनवपसदो नमन्ति विन्दन उपसत्तारम् मुन्यीयोपसारयति पृथिवीमेव प्रीणाति होष्यन् उपसारयति अन्तरिक्षमेव प्रीणाति पूर्वोपसारयति दिवमेव प्रीणाति एतावाग्निहोत्रस्योपसदः य एवम् वेद उपैनमपसदो नमन्ति विञ्जलोपसत्तारम् यो वाग्निहोत्रस्याश्रावितम् प्रत्याश्रावितहोतारम् ब्रह्माणम् षट्कारम् वेद कस्यत्वेव हुतम् प्राणो वाग्निहोत्रस्याश्रावितम् अपारप्रत्याश्रावितम् मनोहोता चक्षुर्ब्रह्मा निमेतोषत्कारः य एवम् वेद कस्यत्वेव हुतम् सादय्यावानष्ट वै देवाः प्रातर्यावानश्चाज्ञो त्रिनो गृहमागच्छन्ति आनयन्नतर्पयेत् प्रजलास्य पशुभिर्भितिष्ठेरन् यत्तर्परेत् कृप्तायणम् प्रजयापशुभिस्तर्परेयः सुजोद्धेवैः साजय्यावभेरितिसायकम् सम्पृशति श्रुजोद्धेवैः प्रातर्यावभेरिति प्रातः ये दैव देवाः सा दैर्यावानो ये च प्रातर्यावानः ता देवोभयागस्तर्पयति तदेन नृप्ताः प्रजजापशुभिस्तर्पयन्ति अरुणो हस्माह उपवेशे अग्निहोग्नदेवाहगुंसाजम् प्रा सर्वजृम्भ्रातुर्वेभ्यः प्रहरामि तस्मान्मत्वामीयागुंसोऽभ्रातर्भ्या इति यदुन्नयति निर्जहवति शाक्वरो वज्रः अग्न्यहोर्थ एव तत्सायम् प्रा सर्वभ्यङ्गिनमानो भ्रातर्याय प्रहरति भवत्यात्मना पराः स्य भ्रातव्या भवति प्रजापतरकामयतात्मन्वन्मे जायेतेति सोऽजुहो अस्यात्मन्वदजायताग्निर्वागिना नित्यः हे अस्य वयमजनिष्महे जायतान्न आत्मन्वचिते प्राणानामग्निः तमवे वायोः चक्षुषा नित्यः वेदागम् हुतादजायतगौरेव नस्ये पयसि व्यायच्छन्त मम हुतादज निममेते त्वे प्रजापतिम् प्रश्नमायन् सहादित्योः अग्निमब्रवीत् यतरो न उजयाज तन्नौ सहासजिते कस्यैकोहौष प्रजापजलब्लभेत् तस्यैक इति प्राणानामहमित्यग्निः तनुवा अहमिति वायुः चक्षुषोऽहमित्यायुत्यः तदेव प्राणानामहौषेत् तस्य हुतात् जनेत् अग्नेरहुतात् जनेत् तदग्निहोत्रस्याग्निहोत्रत्वम् गौर्वग्निहोत्रम् यदेवम् वेदगौरग्निहोत्रमिति प्राणापानाभ्यामेवाग्निकम् समर्थयति अभ्यर्थकः प्राणापानाभ्याम् भवति एवम् वेद औवायब्रवीत् अनुमा भजतमिति यदेव गारिहपद्ये सिश्रित्याः वनीरमभ्युद्रवान् तेन त्वाम् प्रेणानित्यब्रूता तस्माच्चगारिकपद्ये सिश्रित्याः वनीजमभ्युद्रवति वायुमेव तेन प्रीणाते प्रजापतिर्देवता सृजमानः अग्निमेव देवतानाम् प्रथममसजत स्वरोऽहम् यदा लम्भ्यमवित्त्वा प्रजापतिमुपर्यावर्तत समर्त्यव सोममादित्यमात्मा निरम्येत कम् हुत्वापरान् पर्यावर्तत ततो वेदमृत्यमपाजयत् अपमृत्यम् जयति यदेवम् जे वेद तस्मात्यस्यैवम् विदुषा उदे काहमुदद्भ्यहन्न दुःपदे उतमेवास्य भवति असौख्यादित्योऽग्निहोत्रम् रौद्रम् गवे वायव्यमुपदृष्टम् आश्विनम् दुह्यमानम् सौम्यम् दुग्धम् वारुणपधिष्यतम् वैष्टदेवाभिन्दवः पौष्णमुदन्तम् सारस्वतम् पिष्यन्तमानम् मैत्रकंशरः धातुरुद्वासिनम् बृहस्पतेरुन्मेतम् सवितः प्रक्रान्तम् जावाप सव्यग्र क्रियमाणम् ऐन्द्राग्नमुपसन्नम् अग्ने पूर्वाहुते प्रजापतेरुत्तरा ऐन्द्रगम् हुतम् दक्षिणतमुपसजति कृतलोकमेव तेन जयति प्राचेमावर्तयति देवलोकमेव तेन जयति प्रीतेमावृत्यतोऽग्भे मनुष्यलोकमेव तेन जयते ो दुःख्यात् ज्येष्ठस्य ज्येष्ठने यस्य योवागतश्रेयः स्यात् अपरो दुःख्यात्तरिष्ठस्य कानिष्ठिनेयस्य योगा बभूषेत् कथम् वृषदे पापश्रदस्य व्यावृत्ते वायव्यम् वा एतदुपदृष्टम् आश्रम् दुह्यमानम् मैत्रम् दुग्धम् अर्यम् न उद्वास्यमानम् काष्ठमम् सवितः प्रक्रान्तम् यावापथिव्यः क्रियमाणम् ऐन्द्राज्ञमुपसादयनम् सर्वाभ्यो वा एषदेवताभ्यो जहोगे योऽग्निहोत्रम् जहोगे यथा खलु विधेनम् तीर्थे तर्पयते एवमग्निहोत्रीयमानम् तर्पयते तर्प्यति प्रजया पथिभिः पथुवर्गम् लोकम् जानाति पश्यति पुत्रम् पश्यति पौत्रम् प्रतिजापशुभिशनैर्जायते यस्यैवम् विजसाराग्निहोत्रम् जुह्वी यौतैन देवम् वेद तयो वैप्र्यमेधा आसन् तेषाम् त्रिलोकोऽग्निहोत्रमजुहोत् द्विरेकः सकृतेकः तेषा यस्त्रिरजुहोत् साजुहोत् योग्भिः सैलिसा यस्य कृते सतोऽस्मि यस्य एताजिहोद्यश्च तोष्णी सा भावाःता तस्माद्यजिताहुतिः पूर्वा होतव्याः तोष्णेमुत्तरा उभे एव अज्ञच्योतिच्योतिरग्निस्वाहेति सारम् च होति प्रेतरेव तत् दधाति सौर्योच्योतिच्योतिः सौर्यस्वाहेति प्रातः प्रेतरेव हितम् एतो मारे तस्य हितम् न प्रजायते यस्याज्ञहोत्रमोत्तंसोभ्यजयति यद्यन्ते स्यात् पुन्नीयप्रात्रेत् उपधाद्यारासीत स यताम्येत् असभोस्वाहेतुजुहुयात् प्रजापुर्वैभूतः समेवोपासरत् स एवैनन्दत उन्नयति नार्तिमार्चते यजमानः ग्निमुद्धरते बसवस्तर्ष्यग्निः तस्मिन् यस्य तथा विधे युक्पदे वधुष्वे वा स्याग्निहोत्रयम् हुतम् भवति निरोधोपालञ्चेदे रुद्रास्तर्ष्यग्निः तस्मिन् यस्य तथा विधे युक्पदे रुद्रेष्वे वा स्याग्निहोत्रयम् आदित्येष्वेवास्याग्निहोत्रगम् हुतम् भवति सर्वदेव धर्मशैद्वादे भवति विश्वे देवास्तर्जग्निः तस्मिन् यस्य तथा विधेयजुक्पदे विश्वेष्वेवेष्वग्निहोत्रगम् हुतम् भवते नितरा मृत्युपा वैदिलोहिनीके भवति इन्द्रस्तर्यग्निः तस्मिन् यस्य तथा विधेयजुक्पते इन्द्रये वास्याज्ञहोत्रगम् हृतम् भवति अङ्गारा भवन्ति एभ्योऽङ्गारेभ्यो चे प्रजापतिस्तृग्ः तस्मिन् यत्र तथाविधे दुःपदे प्रजापतावे वास्याज्ञहोत्रगम् हुतम् भवति ब्रह्मणेवास्याग्निहोत्रकम् हुतम् भवति वसरुद्रेष्वादित्येषु विश्वेषु देवेषु इन्द्रे प्रजापतौ ब्रह्मणे अपरिवर्गमेवास्यैतासु देवतासु हुतम् भवति यस्यैवम् विदुषाग्निहोत्रम् जत्पति यभुतेन देवम् वेद विदम् त्वासत्तेन परिषिञ्जामेति सायम् परिषिञ्जति सत्यम् दत्तेन परिषिञ्जामेति प्रातः अग्निर्वादिताम् तथा वादित्यः सत्यम् अग्निमेव ददादित्येन सायम् परिषिञ्चते अग्निनादित्यम् प्रातः सः यावदहोरात्रे भवतः तावदस्य लोकस्य नार्तिर्न वृष्टिः नान्तो न पर्यन्तोऽस्ते तैलम् विदुषाग्निहोत्रम् जुह्वति यभुतेन देवम् वेद ओ प्रजापतिरकामय प्रजासृजयजेति सहोतारमपश्यते तम् मनसानुद्रजदर्भस्तम्बेजुहोत् ततोऽपेदप्रजा असृजता तास्मात्सृष्टा पाक्रामन् आग्रहेणागृह्णात् अनुग्रहस्य ग्रहत्वम् यः कामयेत प्रजा यजेति सह प्रजापतिरेव भूत्वा प्रजायते मनसा जुहोति मनजबहि प्रजापतिः प्रजापतेराप्त्यै ओर्णया जुहोति ओर्णयबहि प्रजापतिः प्रजापतेराप्त्ये न्यूनया जुहोति न्यूनाद्यि प्रजापति प्रजा असजत प्रजानाकम् सृष्टे गर्भस्तम्भे जुहोति एतस्माद्वै योनेः प्रजापति प्रजा असजत यस्मादेवयोने प्रजापति प्रजा असृजत तस्मादेवयोने प्रजायते ब्राह्मणो दक्षिणत ब्राह्मणो वै प्रजानामुपद्रष्टा उपद्रष्टुमत्रैव प्रजायते गृहो भवति प्रजानागुम् दृष्टानाम् धृत्ते यम् ब्राह्मणम् विद्याम् विद्वागुम् सञ्जो रन्धेत् सोरण्यम् पलेत्य दर्भस्तम्भमुद्गृच्छ ब्राह्मणम् दक्षिणतो निषाद्य चतुर्होद्रे व्याजक्षीत एतद्वै देवानाम् परमम् गुष्म् ब्रह्म यच्चतुर्होदारः तदेव प्रकाशम् गमयति तदेनम् प्रकाशम् गतम् प्रकाशम् प्रजानाम् गमयति गर्भस्तम्बमु व्याचष्टे अग्निवालवै दर्भस्तम्बः अग्निवत् एवम् व्याचष्टे ब्राह्मणो दक्षिणदुपास्ते ब्राह्मणो वै प्रजानामुपद्रष्टा उपद्रष्टुमत्तेनषरिच्छति ईश्वरम् तैसोक्त यस्यान्ते व्याचष्ट इति परस्तस्मैतेन तदेवैनम् तत्र वनमति तदेवावरुन्धे अव्यमादधानामरुद्ध्यात् प्रजातमेवैनमाधत्ते तेनैव दृत्याग्नित्रम् जुभुयात् प्रजातमेवेन जहोति हविर्निर्वक्ष्यन्दशहोदारम् व्याचक्षीत प्रजातमेवेन निर्गपदे सा विधेनेरण वक्ष्यन्दजहोदारम् व्याचक्षीत सामिधेनेरेव दुष्कारभ्यपदमते ततो होदारम् जुजाते न भवे पुरुषे प्राणाः नाभिर्दशमे सप्राणमेवनमभिचरते एतावद्वे पुरुषस्य स्वम् यावत्प्राणाः यावदेवास्यास्ति तदभिचरति स्वगतैर्णे लहो रिक्पथदेवाः एतद्वा अस्यै निर्गतिगृहेदम् निरुतिगृहीतदेवेन निरृत्याग्राहयति यद्वाचः क्रूरम् तेन वषत्करोति वाचदेवेन क्रूरेण क्रोच्छति राजगाद्यमार्च्छति प्रजापतिरकामे पूर्णमासोऽसृते सर्होतारमपश्यत् तम् मनसानुर्द्याहवनीरे ततोऽपि सदर्शपूर्णमासापसृत तावस्मात् सृष्टावपात्क्रामताम् त्व ग्रहेणागृह्णात् तद्ग्रहस्य ग्रहत्वम् दर्शपूर्णमासावालभमानः चतुर्होतारम् मनसानुधृत्याह वनीले जुयात् दर्शपूर्णमासारेवारभ्य प्रदनुज गृहो भवते दर्शपूर्णमासयो सृष्टयोद्धृत्यै स्वकामैत चातुर्भाष्यासचेति सरेतम् पञ्चहोतारमपश्यत् तम् मनसानुधृत्याः वनीलेऽजुहोत् रतो चातुर्भास्यान्यसजत तान्यस्मात् सृष्टान्यपाः क्रामन् तानि ग्रहेणागृह्णात् ग्रहस्य ग्रहत्वम् शातुर्मास्यान्यालभमानः पञ्चहोदारम् मनसा प्रत्याहवनेजेजुभुजात् शातुर्मास्यान्येव सृष्ट्वारभ्यपदनत् गृहाभवते श्वासुर्मास्यानागम् सृष्टानान्धृत्तेः स्वकामेकपुबन्धकम् सृजति षडेतम् षड्भोतारमपश्यत् कम् मनसानुद्वृत्त्याः वनीजे जुहोर् ततो वेदपशुबन्धमसृजत सोऽस्मात् सृष्ट्वाक्रामत् अङ्ग्रहेणागृह्णात् सद्ग्रहस्य ग्रहत्वम् पशुबन्धेन यक्ष्यमाणः षड्भोतारम् मनसानुद्वृत्याः वनीजे जहुजात् पशुबन्धमेव दृष्ट्वारभ्यप्रदमदे ग्रहो भवते पशुबन्धस्य दृष्टस्य धृत्तेः सौम्यमद्भरकम् सेति स एतकम् सप्तहोदारमुपश्यते त्वम् मनसानुद्वृत्त्याः वनीरे जुहोरे सोऽस्मात् सृष्ट्वामत् अनुग्रहेणागृह्णात् तद्ग्रहस्य ग्रहत्वम् ते क्षिष्यमाणः सप्तहोदारम् मनसानुद्वृत्त्याः वनीरे सौम्यमेवाध्वरकम् सृष्टभ्यप्रदमते गृहो भवति सौम्यस्याध्वरस्य षष्टस्य चित्रे देवेभ्यो वै यज्ञो न प्राभवत् समेतावक्षः समफरन् यत्सम्भाराः ततो वेतेभ्यो यज्ञप्राभवत् यत्सम्भारा भवन्ति यज्ञस्य प्रभोक्ते आदित्यमासाद्यव्याचष्टे यज्ञमुखम् वा मुखदलेव मुखतरेव यज्ञकम् सम्भृत्य प्रदमदे अयज्ञो वादेशः यो पत्नीकः न प्रजाप्रजालेरन् पत्नीष्टे यज्ञमेवाकः प्रजानाय उपसत्स व्याजष्टे एतद्वै पत्नीनामायुधनम् स्वदेवैन आयुधनेव कल्पयते प्रजापदनकामेतत्प्रजा नेदे करपोदप्य सत्प्रशग्रस्त्वामोद तम्पञ्च रसस्त्वामो मध्यरबुदोहो लक्षश्चाबलपक्षश्चाभवराम् ओलपक्षम् देवान्वसिन्त अपरपक्षमन्वसुराः रोदेवाभवन् परासुराः कामलेतवशीजान् स्यादिति तम्पोः प्रपक्षेरादिने वशीजानेव भवति ङ्कामलेदमापीजा तव परपक्षे जात् वापीजानेव भवति तस्मात् लोकपक्षोपरपक्षात्तरुण्यतरः प्रजापदर्वेदजहोता चतुर्होता पञ्चहोता षड्ढोदाहोता दवः संवत्सरः प्रजाप्रसवजमे लोका प्र एवम् प्रजापदम् प्रजा बहोर्भोजागम् संवेद बहोदेव भोजागन् भो भवति भो प्रजापतिर्देवासुरासजत स इन्द्रमपिनासजत तम् देवाब्रुवन् इन्द्रन्व जनयेति सोऽशक्षि एवमिन्द्रम् जनयध्वमिति ते तपोदप्यन्त स आत्मन्निन्द्रमपश्यन् त्वमब्रुवन्मेति सोऽभागेयमभिजनिषयिते संवत्सरम् प्रजाः पशोन् इमान् लोकानित्यब्रवन् तम् वैमाहुत्या प्रजनयतेऽत्यब्रवीत् तम् चतुर्होत्रा प्राजनयन् यः कामलेत वीरो माजायेत् स चतुर्होता रञ्जुभुयात् प्रजापतिर्वे चतुर्होता प्रजापतिरेव भूत्वा प्रजायते यजलिन्द्रमिन्द्रजाय स्वाहे निग्रहेण जहोति हास्य वीरो वीरगुम्भिदेवानेतया हुत्या प्राजनयन् आदित्याष्टाङ्गिरसश्चर्गे लोके स्पर्धन्त अयम् पौर्वे तुर्गम् लोकमियामवयम् पौर्वगिते आदित्याम् पञ्चहोतारमपश्यन् तम् पुराप्रातरणुवाकादाग्नेतुगवो ततोपैते पौर्वेतुवर्गम् लोकमायन् व्यस्वर्गकामः स्यात् सपञ्च होतारम् प्रातरुणुभागादाग्ने संवत्सरो वे पञ्च होता संवत्सरः स्ववर्गो लोकः संवत्सरवेव प्रतिष्ठाय स्ववर्गम् लोकमेतिवर्णम् इत्यान्सद्वो हव्यम् वक्ष्यामनिति छन्दस्वित्य ब्रुवन् दायत्यजाम् दृष्टुभिजगत्यामिति तस्माच्छन्द्रद्यादितेभ्यः आङ्गे प्रजाभ्यम् वहन्ति वहन्त्यस्मै प्रजापलिम् ऐनमप्रतिख्यायम् गच्छति यदेवम् वेद द्वादशमासाः पञ्च तव लोकाः वा नित्यरेकविहंशः एतस्मिन्वा देशश्रितः एतस्मिन्प्रतिष्ठितः यदेवमेदज्ञश्रितम् प्रतिष्ठितम् वेदम् तत्त्वे प्रतिष्ठते प्रजापजनकामेत प्रजाने सहोदारमपश्यत् आत्मानम् विजाप्य तस्य चित्तिस्रगासेत् चित्तमाज्यम् तस्य एतावत्येव वागासेत् एतावानैरज्ञक्रतुः चतुर्होदारमुदनन्दज असक्षिवा इममिति तस्य सोमाहविरासेत् सतुर्होत्रादप्यता सोताम्यत् स भोरिदिव्याहरत् सभोमिमसृज अग्निहोत्रोताम्यत् सभुवैदिव्याहरद सोऽन्तरिक्षमसृज चातम् हास्यानि सामानि सीजमदप्योताम्यत् सोपरिदिव्याहरद स दिवमसृजत एतावे व्याहृदे प्रजा पशुपच्छन्दागम् प्राजायन्ता एवमेता प्रजापदे प्रथमा व्याहृदे प्रजातावेदा प्रजया पशुभिर्मथनेयते प्रपञ्च होतारमुदता सहविन्दत तस्मै सोमस्तनुवम् प्रायच्छते एतत् हविरतिपञ्चहोत्रादप्यदा सोदाम्यत् स प्रत्यङ्गबाधर सोऽसुरानसृजद तदस्याप्रियमासेर तद्दुर्वर्णकम् हिरण्यमभवत् तद्दुर्वर्णस्व हिरण्यसृजन्म तद्वितीयमदप्यदा सोदाम्यद् स्वप्राङ्गबाधर तदेवानसृजद तस्य प्रियमासीर अत्सुवर्णकम् हिरण्यमभवत् यत् सुवर्णस्य हिरण्यस्य जन्म एवर्णस्य हिरण्यस्य जन्म वेद सुवर्ण आत्मना भवति दुर्वर्णाः सभ्रादुर्व्यः तस्मात् सुवर्णकम् हिरण्यम् भार्यम् सुवर्णनेव भवति ऐनम् प्रियम् गच्छति ना प्रियम् सप्तहोदारमुसजत सप्तहो त्रैवर्गम् लोकमेणवेन स्तोमेनेभ्यो लोकेभ्यो दुराञ्चानुद तयस्त्रिपुंशेन प्रत्यतिष्ठते एकविपुंशेन ऋतमधत्ता सप्तदशेन प्राजायत यदेवम् विद्वान् सोमेनैजते सप्त त्रैव सुवर्गम् लोकमेति प्रणवेन स्तोमेनैभ्यो लोकेभ्यो भ्यादुर्भ्यान् प्रणुदते तयस्त्रिपुंशेन प्रतिष्ठति एकविपुंशेन ऋतुम् धत्ते सप्तदशेन प्रजायते तस्मात्सप्तदशस्तोमोद्यः प्रजापतिर्वे सप्तदृशः प्रजापतिर्वेमध्यतो से प्रजात्यये